शिवगीता द्वितीय अध्यायः ऋषय ऊचुः किमर्थमागतो गस्त्यो रामचन्द्रस्य सन्निधिम् कथं वा विरजां दीक्षां कारयामास राघवम् ततः किम् आप्तवान् रामः फलं तद् वक्तुमर्हसि सूत उवाच रावणेन यदा सीता अपहृता जनकात्मजा तदा वियोगदुःखेन विलपन् आसरागवः राघवः निर्निद्रो निरहङ्कारो निराहारो दिवानिशम् मोक्तुमैच्छत्ततप्राणान् सानुजो रघुनन्दनः लोपामुद्रापतिर्ज्ञात्वा तस्य सन्निधिमागमत् अतथम् बोधयामास संसार असारतां मुनिः अगस्त्य उवाच किं विषीदसि राजेन्द्र कान्ता कस्य विचार्यतां जडः किं नु विजानाति देहोऽयं वाञ्चभौतिकः निर्लेपः परिपूर्णश्च सच्चिदानन्दविग्रहः आत्मा न जायते नैव म्रियते न च दुःखभाक् सूर्योऽसौ सर्वलोकस्य चक्षुष्वेन विपस्थितः तथापि चाक्षुषैर्दोषैर्न शैद कदाचित् विलिप्यते सर्वभूत अन्तरात्मापि तद्वद्दृश्यैर्न लिप्यते देहोऽपि मलपिण्डोऽयं मुक्तजीवो जडात्मकः दह्यते वह्निना काष्ठैः शिवाद्यैर्पक्ष्यतेऽपि वा तथापि नैव जानाति विरहे तस्य काव्यथा सुवर्णगौरी दूर्वाया दलवश्यामला वा पीन उत्तुङ्गस्तन आभोग भुग्नसूक्ष्मवदग्निका बृहन्नितम्बजगना रक्तपादसरोरुपा राकाचन्द्रमुखी बिम्बप्रतिबिम्बरदच्छदा नीलेन्दीवरनिकाशनयनद्वयशोभिता मत्तकोकिलसंल्लापा मत्तद्विरतगामिनी क्षैरनुगृह्णाति मां पञ्च इषु सर्वोत्तमै इति यां मन्यते मूढ स तु पञ्च इषु शासितः तस्य अविवेकं वक्ष्यामि कृणुष्व अवहितो नृप न चस्ति न पुमान् एष नैव चायम् नपुंसकः अमूर्तः पुरुषः पूर्णो द्रष्टा देही सजीविनः या तन्मङ्गी मृदुर्बाला मलपिण्डात्मिका जडा सा न पश्यति यत्किञ्चित् चर्ममात्रा तनुस्तस्या उद्वात्यक्षस्व राघव या प्राणादधिका सैव अन्तते स्यादृणास्पदम् यदि भूतेभ्यो देहि नः पाञ्चभौतिका आत्मा यत्येकलस्तेषु परिपूर्णः तनः का कान्ता तत्र कः कान्तः सर्व एव सहोदराः निर्मितायाम् गृहावल्याम् तदवच्छिन्नताम् गतम् न भस्तस्याम् तु आत्मापि देहेषु परिपूर्णः सनातनः अन्यमानेषु तेष्वेव सस्वयं स्वयं नैव हन्यते हन्ता चेन्मन्यते हन्तुम् अतश्चेन् मन्यते हतं तावुभौ न विजानीतो नायं हन्ति नहन्यते। अस्मान्नृपातिदुःखेन किं खेदस्यास्ति कारणं स्वस्वरूपं विदित्वा इदं दुःखं त्यक्त्वा सुखी भव राम उवाच मुने देहस्य नो दुःखं नैव चेत् परमात्मनः सीताभियोगदुःखाग्निर् मां भस्मीकुरुते कथम् सदा अनुभूयते योऽर्थ स नास्तीति त्वया ईरितः जायतां तत्र विश्वासः कथं मे अन्यो अन्योऽत्र नास्ति को भोक्ता येन जन्तुः प्रतप्यते सुखस्य वापि दुःखस्य तद्ब्रूहि मुनिसत्तम अगस्त्य उवाच दुर्ज्ञे या शाम्भवी माया तया सम्मोह्यते जगत् मायां तु प्रकृतिं विद्यात् मायिनं तु तस्य अवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् सत्यज्ञानात्मको अनन्तो विभुः आत्मा महेश्वरः तस्य एव अंशो जीवलोके हृदये प्राणिनां स्थितः विस्फुलिङ्गा यता वन्नेः जायन्ते काष्ठयो गतः अनादिकर्मसम्पद्धाः तद्वद् अंशा महेशितु अनादिवासनायुक्ताः क्षेत्रज्ञा इति ते स्मृताः मनोबुद्धिः अहंकारः चित्तम् चेति चतुष्टयम् अन्तःकरणम् इति आहुः तत्रते प्रति ते प्रतिबिम्बिताः जीवत्वम् प्राप्नुयुः कर्मफलभोक्तार एव ते ततो वैषयिकम् तेषाम् दुःखमेव वा त एव भुञ्चते भोग आयतने अस्मिन् शरीरके जङ्गमं चेति द्विविधं वपुते तावराः तत्र देहाः स्युः सूक्ष्मा उल्मलथादयः अण्डजाः स्वेदजाः तद्वत् उद्भिच्छा इति जङ्गमाः योनिमन्ये प्रपद्यन्ते शरीरत्वायदेहिनः ताणुम् अन्ये अनुसंयन्ति यथा कर्म सुख्यहं दुःख्यहं चेति जीव एव अभिमन्यते अपि परं ज्योतिः मोहितः संभुमायया कामः क्रोधः तथा लोभः मदो मात्सर्यमेव च मोहश्चेदरिषद्वर्गम् अहङ्कारगतं विदुः सयेव बद्यते बध्यते जीवः स्वप्नजाग्रत् अवस्तयो सुषुप्तौ तदभावाच्च जीवः शङ्करतां गतः स माया संस्पृष्टः कारणं सुखदुःखयोः शुक्तो रजतवद्विश्वं मायया दृश्यते शिवे ततो विवेकज्ञानेन न कोऽपि अत्र अस्ति दुःखभाक् ततो विरमदुःखा त्वं मुधा परितप्यसे श्रीराम उवाच मुने सर्वमिदं तत्यं यत् मदग्रे त्वया ईरितं तथापि न जगात्येतत् प्रारब्ध अदृष्टम् पुल्भणम् मत्तं कुर्याद्यथा मद्यं नष्ट अविद्यमपि द्विजम् तद्वत्प्रारब्धभोगोऽपि न जहाति विवेकिनम् ततः किं बहुनोक्तेन प्रारब्धसचिवः स्मरः बाधते मां दिवारात्रम् अहङ्कारोऽपि तादृशः अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति तस्मात् जीवाप्तये मख्यं उपायः क्रियतां विच इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु वैराग्य उपदेशो नाम द्वितीयो Yeah, yeah, ha